गुरुब्रह्म गुरुविष्णवो गुरुदेवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्र सङ्ग्रहः न्यायचिन्तनवर्गे सर्वेषां सुस्वागतम् रूपरस गन्धस्पर्श इति एतेषां गुणानां लक्षणम् अस्माभिः अधीतम् अपि च तेषां वैविध्यं कीदृशम् इत्यस्मिन् विषये अपि अस्माभिः अधीतम् तेषां वृत्तित्वं कुत्र कुत्र भवति इति एतत् सर्वम् अस्माभिः अधीतम् तत्र तद् तस्य अध्ययनस्य अनन्तरम् इदानीं गन्धः केवलं पृथिव्याम् एव वर्तते पृथिवीवृत्तित्वेवं वृत्तित्वम् एव गन्धस्य अस्ति अपि अस्माभिः अधीतम् अपि च पृथिव्याः लक्षणं कथं दत्तम् इति चेत् गन्धवधी पृथिवी इति तर्हि पृथिवी गन्धः इति गुणः पृथिव्याम् एव लभ्यते इति कृत्वा तत्र कार्यकारणभावः अस्ति वा इत्यस्मिन् विषये चिन्तनं प्रवर्तितम् गन्धस्य लक्षणम् अधीत्य तदनन्तरं तत्र अस्माभिः किं कृतं पृथिव्याः लक्षणम् अधीतं तदनन्तरं गन्धस्यापि लक्षणम् अधीतं तत्र पृथिव्याः लक्षणं कथं कृतम् इति चेत् गन्धः इति गुणः स्वीकृत्य गुणं स्वीकृत्य लक्षितं गन्धवती पृथिवी पुनः गन्धस्य लक्षणं कथं कृतम् इति चेत् तत्र इन्द्रियं स्वीकृत्य ग्राणग्राह्यो गुणः गन्धः इति तत्र दलद्वयं विद्यते ग्राणेन्द्रिय ग्राणेन्द्रियग्राह्यत्वम् अपि च गुणत्वम् इति दलद्वयम् उक्त्वा तत्र गन्धस्य लक्षणं कृतम् तर्हि इदानीं गन्धः तु केवलं पृथिव्याम् एव वर्तते इति कृत्वा तयोः मध्ये कार्यकारणभावः अस्ति वा इत्यस्मिन् विषये चिन्तनं प्रवर्तितं तत् साधनार्थं तत्र अन्वयसहचारः अपि च अन्वयविविचारः पुनः व्यतिरेकसहचारः व्यतिरेकविचारः इत्यस्मिन् एतेषां विषये अस्माभिः चिन्तितम् तत्र चत्वारि वाक्यानि भवन्ति तत् सत् यत्सत्त्वे यत्सत्त्वम् इति अन्वयसहचारः यदभावे यदभावः इति व्यतिरेकसहचारः यत्सत्त्वे यदभावः इति अन्वयव्यभिचारः यदभावे यत्सत्त्वम् इति व्यतिरेकव्यभिचारः तर्हि सहचारः इत्युक्ते किम् इति चेत् यत्र सामानाधिकरणीयं वर्तते तत्र एव सहचारः इति तयोः मध्ये सहचारः अस्ति इति वक्तुं शक्यते अपि च अन्वयः इत्युक्ते किं भावं स्वीकृत्य अस्तित्वं स्वीकृत्य यत्किमपि वदामः तदेव अन्वयम् इति वदामः व्यतिरेकः इत्युक्ते अभावं स्वीकृत्य इति एतत् सर्वम् अस्माभिः अधीतम् अनेन किं जातं यत्र यत्र अन्वयसहचारः अपि च व्यविरे व्यतिरेकसहचारः वक्तुं शक्यते तत्र कार्यकारणभावः निश्चितः भवति इति एकमस्माभिः अधीतं द्वितीयं यत्र यत्र अन्वयव्यभिचारः भवति अपि च अन्वय व्यतिरेकव्यभिचारः भवति द्वयमपि यत्र भवति व्यभिचारद्वयं यत्र भवति तत्र सहचारः न वक्तुं शक्यते इत्यतः कार्यकारणभावः नास्ति शक्यते, निश्चं शक्य अ तृतीय विषय यद्य अयह कि अन्वयचार्ञान अस्तृशसंदर्भे इंम कार्यस्ती शक्य चेत न तस्य उदाहरणं तस्मिन् विषये उदाहरणद्वयम् अस्माभिः दृष्टं सर्वाणि कार्याणि भवेयुः यस्य एकमेव एकमपि कार्यं नास्ति तत्र अन्ये कारणानि अन्यानि कारणानि भवन्ति चेदपि तत्र कार्यं न उत्पद्यते तस्मिन् सन्दर्भे इदानीम् अन्ये व्यभिचारः द्योतते इत्युक्ते दण्डः अस्ति कुलालः अस्ति चक्रमस्ति कपालः अस्ति तेषु कारणत्वम् अस्ति एव तेषां कारणत्वम् अस्माभिः अभिमतमेव तथापि घटः न उत्पद्यते किमर्थम् इति चेत् कपालद्वयोः मध्ये संयोगः इदानीमपि न जातम् इत्यतः तर्हि इदानीं दण्डं स्वीकृत्य चक्रं स्वीकृत्य पश्यामश्चेत् तत्र अन्वयव्यभिचारः अस्ति व्यभिचारः इत्युक्ते किम् कारणमस्ति किन्तु कारणं न जातं तत्सत्त्वे तदभावः अन्ते व्यभिचारः अस्ति तथापि कारणत्वग्रहे क्लेशः नास्ति किमर्थम् इत्युक्ते अत्र तर्कः अस्ति सर्वाणि कार्याणि न सन्ति तत्र तत्र संयोगः न जातः नित्यतः एव घटः न घटस्य उत्पादनं नाभवत् न, न कारणत्वाभावे इति अस्माभिः अधीतं तत्र द्वितीय उदाहरणम् आसीत् क्षीणदण्डः अयोग्यदण्डं स्वीकृत्य चक्रभ्रमणं कर्तुं प्रयत्नं कुर्मश्चेत् तत्र किं भवति चक्रभ्रमणं न कर्तुं शक्यते चक्रभ्रमणं विना कपालयोः संयोगः न कर्तुं शक्यते इत्यतः तत्रापि अन्वयविभिचारः द्योतते दण्डत्वं तु अस्ति तथापि योग्यत्वं नास्ति इत्यतः तत्र अन्वे व्यभिचारः अस्ति चेदपि तत्र दण्डत्वे विद्यमानकारणत्वं न त्यक्तुं शक्यते इति अस्माभिः दृष्टम् अन्तिमवाक्यम् आसीत् तत्र व्यतिरेकव्यभिचारज्ञानं यत्र भवति व्यतिरेकविभिचारम् इत्युक्ते किं तदभावे तत्सत्त्वं कारणं नास्ति किन्तु कार्यमस्ति इति स्थितिः अस्ति चेत् निश्चयेन तत्र कार्यकारणभावः नास्ति इति निश्चेतुं शक्यते कारणं नास्ति किन्तु कार्यमस्ति इति तादृशस्थितिः अस्ति चेत् तत्र कारणताज्ञानं न उत्पद्यते एव अत्रापि किञ्चित् चिन्तनीयं पूर्वम् दृष्टं किल तत्र नदेः प्रवाहः दृश्यते किन्तु यस्मिन् प्रदेशे प्रवाहः दृश्यते तत्र वृष्टिः न दृश्यते तथापि पूर्वदेशे वृष्टिः अभवत् इति अनुमातुं शक्यते इति अस्माभिः दृष्टं तादृश अनुमानं यत्र कर्तुं शक्यते तत्र व्यतिरेकविचारज्ञानम् अस्ति चेदपि तत्र कारणतागृहे क्लेशः नास्ति एव किन्तु तादृश अनुमानं यत्र न कर्तुं शक्यते तत्र व्यतिरेकविचारज्ञानम् अस्ति चेत् तत्र एतादृश अवगमनं कर्तुं शक्यते इति तत्र पर्मिटेशन्स् काम्बिनेशन् यदासीत् तस्मिन् विषये किञ्चिदिव चिन्तितम् इदानीम् अस्माकं पाठः किञ्चित् अग्रे गच्छति असमवेतगुणानां ज्ञानं कथम् इति अत्र किञ्चिदिव वदामि उपोद्घातरूपेण तर्हि गन्धः केवलं पृथिव्याम् एव भवति इति अस्माभिः अधीतम् तस्य वर्तित्वं वृत्तित्वं केवलम् एकस्य द्रव्य एकस्मिन् द्रव्ये एव सा पृथिवी गन्धः कुत्र लभ्यते केवलं पृथिव्यां लभ्यते किन्तु इदानीम् अस्माकं पुरतः जलमस्ति जले दुर्गन्धः वा सुगन्धः वा अस्माभिः अनुभूयते एव तर्हि जले गन्धः नास्ति चेदपि कथं वा तस्य अनुभवः भवति इति प्रश्नः उदेति तस्मिन् विषये अत्र चिन्तनं प्रवर्तमानम् अस्ति असमवेतगुणानां समवेतम् इत्युक्ते वित् इति धातुः विद्यमानत्वम् इति असमवेतम् इत्युक्ते जले गन्धः नास्ति चेदपि तत्र ज्ञानं भवति एव अस्मिन् जले सुगन्धः अस्ति अस्मिन् जले दुर्गन्धः अस्ति इति तादृशज्ञानम् अस्माभिः अनुभूयते तुशज कथं यद्यप जले गंध नादृश ज्ञान कथम यद्यप जले कवल मधुरसम अस्थाई जलें त्र लवणरसम अस्म अ चेत तथम लवणरस से जले ये स्वभाव नास्त तादृशज्ञानं कथं भवति इत्यस्मिन् विषये एषः पाठः प्रचलति अस्तु पठेम मुरळि महोदय आरब्धुमिच्छति वा असमवेदगुणानां ज्ञानं कथम् इति अहं प्रयत्नं करोमि तथा च अन्वयव्यतिरेक व्यभिचारज्ञानभावे ज्ञानाभावे सति अन्वयव्यतिरेहसहचारज्ञानम् उत्पद्यते तेन च कारणादाग्रहः भवति एतादृशकारणताग्रहे सति यत्र क्वचित् ग्रन्थः अनुभूतः पृथिवी न उप नोपलब् नोपलब्धा चेदपि तत्र शास्तीति अनुमीयते तावत् तत्र अवगमस्ति चेत् वदतु आम् आं प्रयत्नं करोमि महोदय अन्वयव्यतिरेकव्यभिचारज्ञान अभाव सति अन्वयव्यतिरेकसहचारज्ञानं बुद्धस्यते तथा च अन्वयव्यतिरेकरेकव्यभिचारज्ञान यत्र अन्वयव्यतिरेक व्यभिचारज्ञानस्य अभावं अस्ति चेत् तत्र अन्वयव्यतिरेहसहचारज्ञानं न उत्पद्यते न न उत्पद्यते इति अस्ति न उत्पद्यते इति कुत्र दत्तम् आमाम् धन्यवादः उत्पद्यते एव अपि च यत्र तत्र इति न अत्र न वक्तव्यम् तत्र सति इति रिक्तौ लिखितमस्ति किल तर्हि ज्ञानद्वयस्य आवश्यकता अस्ति एकस्मिन् पार्श्वे अन्वयव्यतिरेकव्यभिचारज्ञान अभावः भवेत् इत्युक्ते तादृशज्ञानं न भवेत् पुनः तस्मिन्नेव सन्दर्भे अन्वयव्यतिरेकसहचारज्ञानमपि भवेत् कपालसत्त्वे घटसत्त्वं कपालाभावे घटाभावः इति ज्ञानं भवेत् एकस्मिन् पार्श्वे पुनः कपालसत्वे घट अभावः इति ज्ञानं न भवेत् कपालाभावे घटसत्वम् इति ज्ञानमपि न भवेत् इति चत्वारि ज्ञानानि यत्र भवन्ति इत्युक्ते सहचारज्ञानद्वयं भवेत् व्यविचारज्ञानं द्वयमपि न भवेत् इति तादृशस्थितिः यत्र अस्ति तत्र कारणतागृहः भवति निश्चयेन कारणकार्यभावः अस्ति इति ज्ञानं ज्ञातुं शक्यते आम् आम् महोदय आम् महोदय हा एतादृश अग्रे पठतु एतादृश कारणतागृहे सति एतादृशकारणतागृहे सति यत्र क्वचित् गन्धः अनुभूतः अनुभूतः गन्धः अनुभूतः पृथिवी न उपलब्धा च चेदपि तत्र शास्तीति अनु अनु अनुमीयते एतादृश पूर्वस्मिन् पठितं कारणम् एतादृशकारणात् गृहे सति यत्र क्वचित् गन्धः अनु अनुभूतः जले हरणतः जलं गन्धं जलमिति किमपि न दत्तमस्ति किल महोदय आमां किमर्थं जलमिति एतादृशकारण कारणता गृहे तत्र एतादृशकार इदानीं कार्यकार्य अस्मिन् वाक्ये कार्यं किं कारणं किम् कार्यं गन्धवती पृथिवी गन्धम् इति कार्यं पृथिवी इति mm -hmm. कारणम् उत्तमं तर्हि गन्धः इति कार्यं पृथिवी इति कारणं तैः oh. च तत्र वाक्यानि वदतु uh, चत्वा uh, यदभावः यत्सत्वे यत्सत्त्वम् अत्र अत्र यत्सत्वे यत्सत्त्वम् इति न वदतु तत्र इदानीं कार्यं किं कारणं किम् इति अस्माभिः पृथि यत् पृथिव्ये यत् इति त्यजतु यत् इत्यस्मिन् स्थाने पृथिवी इति स्थापयतु आमां पृथिवी पृथिवीसत्त्वे गन्धसत्त्वं पृथ्वी अभावे गन्ध अभावम् गन्ध अभावः अभाव गन्ध अभावः पृथिवी सत्त्वे इति पृथिवी सत्त्वे गन्ध अभावः इति अन्वयव्यभिचारः इति ज्ञानं न भवेत् आम् आम् आं महोदय स्व so, अभिचार व्यभिचारमेव अन्वयव्यभिचारं भवेत् वा न भवेत् वा न भवेत् न भवेत् न भवेत् अनन्तरं पृथ्वी अभावः अभावे गन्धस्सत्त्वः गन्धस इति व्यभिते व्यतिरेकव्यभिचारः हा इति व्यतिरेकव्यभिचारज्ञानं भवेद्वा न भवेद्वा न भवेत् तर्हि एतादृशकारणता गृहे इत्युक्ते पृथ्वीसत्त्वे गन्धसत्त्वम् इति ज्ञानं भवेत् अन्वयसहचारज्ञानं भवेत् पृथ्वीयभावे गन्धाभावः इति व्यतिरेकसहचारज्ञानं भवेत् पृथ्वीसत्त्वे गन्धाभावः इति अन्वयव्यभिचारज्ञानं न भवेत् पृथ्वीयभावे गन्धसत्वम् इति व्यतिरेकव्यभिचारज्ञानं न भवेत् इति तादृश स्थितिः यत्र अस्ति तत्र कारणता ग्रहः अस्ति इत्युक्ते गन्ध पृथिवी एव गन्धस्य कारणम् इति अस्माभिः निश्चितम् तदनन्तरं वदतु एतादृशकारणता गृहे सति यत्र यत्र इत्युक्ते इदानीं जलं वा वायुः वा इति स्वीकुर्मः वदतु स्वीकृत्य वदतु जलं वा वायुः वा स्वीकृत्य जलम् इति स्वीकरोतु इत्युक्ते उदाहरणतः जलं स्वीतया जलं स्वीकृत्य आं जले ज्वले क्वचित् गन्धम् अनुभूतः अनुभूतं अस्ति चेत् जले जलस्य गुणं केवलं शीतस्पर्शमेव न गन्धः जलस्य गुणं केवलं शीतस्पर्शम् इति न वक्तव्यं जले गन्धः नास्ति इति वक्तव्यं गन्धः केवलं पृथिव्यां जले एकः एव गुणः इति नास्ति जले मधुरसः अस्ति शीतस्पर्शः अस्ति आं महोदय केवलं गन्धः एव नास्ति तत्र तत्र केवलं गन्धः एव नास्ति इति अपि गन्धः तु केवलं पृथिव्यामेव भवति इति समीचीनवाक्यम् आं हा गन्धवदी गन् गं, गन्धवती पृथिवी तत् पृथिव्यां लक्षणं तस्मात् यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवी एव अस्ति सत् सथ जले अस्माभिः गन्धः अनुभूयते आम् तर्हि किं पृथिवी न उपलब्धा चेदपि तत्र सास्ति इति अनु अनुमीयते सास्ति hmm. इति तत्र सास्ति इति तत्र पदच्छेदं करोतु सास्ति इति अनुमीयते सा, सा अस्ति इति अनुमीयते अत्र सा, सा इत्युक्ते का आ, सा अस्ति इत्युक्ते जलमेव महोदय न न सा अस्ति इति अनुमीयते सा इत्युक्ते पृथिवी यत्र जले क्वचित् गन्धः अनुभूतः जले अस्माभिः तत्र सुगन्धः अनुभूतः इति चिन्तयतु जले पृथिवी नास्ति तथापि तत्र पार्थिवकणाः सन्ति इति अस्माभिः अनुमीयते अनुमानं कुर्मः किमर्थम् पृथिवी विना गन्धः न उपलभ्यते न उपलभ्यते सत्यं सत्यं महोदय तर्हि जले अपि पृथिवीकणाः पार्थिवकणाः तत्र यद्यपि अस्माभिः न दृश्यते तथापि hmm. तत्र सूक्ष्मरूपेण वर्तते इति अनुमानं कर्तव्यं नो चेत् तत् कथं वा गन्धे जले गन्धः अस्माभिः अनुभूयते न शक्यम् इति कृत्वा तादृश अनुमानं कर्तव्यम् अस्तु समीचीनं धन्यवादः अग्रे रघुपतिमहोदय महोदय न जानामि पठामि किञ्चित् अहं किञ्चित् साहाय्यं करोमि एवञ्च उपवनात्समागते वाते तादृशे च जले तादृश तादृशः च जले यः सुरभिगन्धः अनुभूयते तादृश अस्तु तादृश अस्तु अस्तु सप्तमी समागते वाते अपि च तादृशे च जले यः सुरभिगन्धः अनुभूयते वस्तुतः पृथिव्याः एव परं सा पृथिवी जलेन संयुक्ता पृथिवीकणाः जले विद्यमाना जले विद्यमानाः अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते पृथिवीगन्धस्तु समवायेन पृथिव्यां स्थितः स्थितो स्थितः अपि स्वसमवायिसंयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति इति अस्तु अत्र अत्र अत्र यत वने वयं वनात् वा, वा, आगतः य सुरभिगन्ध वाय् वायोः गन्धः अस्ति अपि च जले जले अपि सुरभिगन्ध सोरि एकनिमिषं सुरभिगन्धः सुरभिगन्धः एतत् प्रथ्वीया प्रत, पर वस्तुतः पृथिव्याः एव सुरभिगन्ध ये वयम् अनु अनुभूयमान गन्धः अस्ति तत् पृथ्वीया पृथ्व्याः पृथिव्याः एव अस्ति परन्तु सा प्रथिवी तत् गन्ध गन्ध जलेन संयुक्ताः प्रयुक् इति संयुक्ताः अतः पृथ्वीकणाः जले विद्यमानापि यद्यपि पृथिवीकणाः जले सन्ति परन्तु चक्षुषा वयं न द्रष्टुं शक्नुमः चक्षुषा अस्माकं चक्षुषा पृथ्वीगन्धः तु समवायेन अस्तु पृथ्वीगन्धन्धः पृथ्व्याम् अस्ति तत्तु समवायसम्बन्धेनापि इतः अपि स्वसमवायिसंयुक्तसम्बन्धेन जले स्थितः स्थितः स्वं प्रत्ययं जनयति स्वसमवायिसंयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति ज्ञानं जनयति प्रत्ययम् अहं न जानामि महोदय जलम् सुरभि इति गन्धस्य एकविशेषणमस्ति विशिष्टगन्धस्य नाम अस्ति सुरभि सुरभिगन्धः इति किन्तु वयं जानीमः जले गन्धः यदा कदापि न भवितुमर्हति तर्हि किं कर्तव्यं किन्तु अनुभवामः अनुभवा तर्हि किं किं कर्तव्यं तस्मिन् जले यद्यपि पार्थिवकणाः न दृश्यन्ते अतिसूक्ष्मत्वात् तत्र अस्मिन् जले सुरभिजले तत्र पार्थिवकणाः सन्ति एव इति अनुमानं कर्तव्यं तर्हि इदानीं पृथिव्यां विद्यमानगन्धः अपि च जलम् अनयोः मध्ये कः सम्बन्धः केन सम्बन्धेन पृथिव्यां विद्यमानगन्धः जलं जलं प्रति आगतम इति वक्तव्यम् इति तर्हि संयुक्तसम्बन्धेन टिप्पणी अस्ति किलतु स्वं गन्धः स्वसमवायिनी पृथिवी तत्संयुक्तं जलं संयुक्तत्वं जले इति अनेन परम्परासम्बन्धेन पृथिवीगन्धः जले प्राप्तः स्वगन्धः स्व गन्धः समवा स्वसमवायिनी पृथिवी तत्संयुक्तं जलं संयुक्तत्वं जले इति अनेन परि परम्परासम्बन्धेन पृथिवी पृथिवी गन्धः जले प्राप्तः अहं न जानामि hmm. अत्र किमपि नास्ति महोदय इदानीं स्वम् इति स्वम् इति पदेन किं बोधितं गन्धः गंदाह। गन्धः गन्धस्य समवायीकारणं किम् गन्धः समवायसम्बन्धेन कुत्र अस्ति पृथ्वयम् अस्ति हा इदानीं सा पृथिवी पृथिव्या संयुक्तं जलम् अपि च जलं तयोः संयोगः अस्ति संयोगः अस्ति तर्हि तत् संयुक्तं पृथिवी संयुक्तं किं जलं जले जलं जलं पृथिव्या पृथिव्या संयोगः कस्य इति चेत् जलस्य संयुक्त पृथिवी संयुक्त जलम तरी कलेमित गंध गंध सयीसंबंधेन पृथिव्यांध सम संबंधे वर्त है, गंद है सा पृथिवी जल जल सह संयुक्त तर्हि संयुक्तं जलं भवति संयुक्तत्वं जले वर्तते तादृश स्वसमवायीसंयुक्तत्वसम्बन्ध संयुक्तत्वसम्बन्धेन संबं, गन्धः जले आगतम् परम्परासम्बन्धेन जले आगतं आवयोः मध्ये किमपि सम्बन्धः नास्ति किन्तु सम्बन्धः वक्तव्यः इति चेत् भवानपि सुरूप महोदयस्य वर्गे अस्ति अहमपि सुरूप महोदयस्य वर्गे अस्मि द्वयमपि छात्ररूपेण तत्र स्तः इति कृत्वा इदानीं तत्र स्वरूपसम्बन्ध स्वरूपमहोदयं स्वीकृत्य अस्माकं मध्ये तत्र सहचारः वर्तते इत्युक्ते तत्र सः छात्रत्वं वर्तते तर्हि आवयोः मध्ये कीदृशसम्बन्धः इति चेत् वस्तुतः सम्बन्धः नास्ति किन्तु अस्माकं मध्ये तत् तत्र मध्ये समानः साधारणः एकः अस्ति इति कृत्वा तं स्वीकृत्य सम्बन्धं वक्तयितुं वक्तुं शक्यते किल एवमेव अत्र गन्धपृथिव्योः मध्ये सम्बन्धः वर्तते पृथिवीजलयोः मध्ये संयोगसम्बन्धः वर्तते गन्ध मध्ये समवायसम्बन्धः वर्तते पृथिवीजलयोः मध्ये संयोगसम्बन्धः तर्हि सम्बन्धद्वयं स्वीकृत्य इदानीं गन्धः जले वर्तते केन सम्बन्धेन स्वसमवायी संयुक्तत्वसम्बन्धेन जले वर्तते तेन सम्बन्धेन स्वप्रत्ययं जनयति स्वज्ञानं जनयति स्वम् इत्युक्ते किं गन्ध गन्धज्ञानं जनयति नैयायिकानां मतानुसारं तत्र सम्बन्धं विना यत्किमपि न वक्तुं शक्यते इदानीम् अस्मिन् अस्मिन् जले किं वदामः लवणं लवणरुचिः नास्ति इति चिन्तयामः मधुररुचिः एव अस्ति किमर्थं लवणरुचिः न अनुभूयते इत्युक्ते तत् सम्बन्धः नास्ति लवणम् अपि च जलयोः मध्ये सम्बन्धः नास्ति इत्यत्वा तर्हि यत्र एतादृशसुरभिगन्धः अस्माभिः अनुभूयते तत्र वयं जानीमः गन्धस्तु केवलं पृथिव्यामेव भवति किन्तु इदानीं जले अनुभूयते तर्हि केन सम्बन्धेन पृथिव्यां विद्यमानगन्धः अस्मिन् जले आगतम् इति चेत् स्वसमवायीसंयुक्तत्वसम्बन्धेन आगतम् अनेन स्वप्रत्ययं जनयति स्वज्ञानं जनयति सुरभिगन्धः इति ज्ञानं जनयति जले इति अत्र उक्तम् उद्धं वा आ महोदय समीचीनं महोदय एकः प्रश्नः अत्र स्वसमवायिसंयुक्तत्वसम्बन्धः इत्युक्ते मिश्रणं खलु संयोगसम्बन्धः अपि च समवायसम्बन्धस्य मिश्रणम् इति नूतनसम्बन्धः अत्र आगच्छति इति अस्ति अत्र मिश्रणम् इति कृत्वा नूतनसम्बन्धः इति नास्ति इदानीम् एकः सम्बन्धः अस्ति तस्य सम्बन्धस्य नाम कः इति चेत् स्वसमवायी संयुक्तत्वसम्बन्धः इति नूतननाम तत्र समवायसम्बन्धः अपि च संयोगसम्बन्धः अनयोः मध्ये सम्बन्धः भवितुमर्हति वा इति चिन्तने सति तादृशं न भवति संयोगः इति गुणः गुणस्तु समवायसम्बन्धेन एव द्रव्ये वर्तते इति कृत्वा इदानीं घटभूतलयोः मध्ये संयोगसम्बन्धः अस्ति चेत् सः संयोगसम्बन्धः केन सम्बन्धेन घटे वर्तते पुनः सहयोगसम्बन्धः केन सम्बन्धेन भूतले वर्तते इति पृष्टे सति समवायसम्बन्धेन वर्तते इति वक्तुं शक्यते आम् किन्तु संयोगः इति सम्बन्धः समवायः इति सम्बन्धः अनयोः मध्ये कः सम्बन्धः इति चेत् तत्र सम्बन्धमेव न वक्तुं शक्यते तर्हि यत्र सम्बन्धः भवति तत्रैव नूतनसम्बन्धः उत्पद्यते इति वक्तुं शक्यते तर्हि तादृशं न वक्तव्यं तर्हि तस्मिन्नपि गुणं किमपि द्रव्ये आ, आ, यदा आ, वयं जानीमः पृथिव्याम् अस्ति शैत्यम् इति जले अस्ति औष्णमिति तेजे तेजसि अस्ति, तेज अस्ति, अस्ति. तर्हि औष्ण्यं यदि जले वर्तते चेत् तत्रापि स्व स्वसमवायीसंयुक्तत्वसम्बन्धः अस्ति इति अपि व वयं वक्तुं शक्नुमः खलु सत्यं तदेव वार्ता भवता अवगतम् अत्रैव अत्रैव अग्रे आयास्यति स्वसमवायीसंयुक्तत्वसम्बन्धेन तेजसि विद्यमान औष्ण्यं जले आगतम् अपि च एतत् सम्बन्धः वस्तु वस्तुतः सम्बन्धः नास्ति केवलम् अस्माभिः कल्पितमेव तत्र कल्पितम् इमे नो चेत् जले अस्माभिः न अनुभवितुं अनुभवितुं न शक्यते किल गन्धान् गन्धस्तु केवलं पृथिव्यामेव वर्तते इति अस्माभिः निश्चितम् अपि च तयोः मध्ये कारणकार्यभावः अपि साधितः किन्तु अस्माकम् अनुभवः अस्ति तर्हि कथं वा अत्र वक्तुं शक्यते अत्र अनुभवस्य अत्र ज्ञानस्य बोधः कथम् इति चेत् अत्र स्वसमवायीसंयुक्तत्वसम्बन्धेन पृथिव्यां विद्यमानगन्धः जले आगतम् अनेन एतत् प्रत्ययं जनितम् uh, uh, uh, uh, इति वक्तव्यम् आं परन्तु अत्र न्यायिकानां कथम् इति सर्वत्र सम्बन्धः इति एव वक्तव्यम् इत्युक्ते अत्र जले गन्धः अस्ति तस्य कारणं किम् इत्युक्ते तत्र पृथिव्यां पृथिवीकणाः सन्ति अतिसूक्ष्मरूपेण अतः एव तत्र जले गन्धः आगच्छति इति एव पर्याप्तं नास्ति वा तत्र सम्बन्धस्य विवरणं कथं ते कुर्वन्ति So, इदानीं तत्र सम्बन्धस्य आवश्यकता कुत्र भवति इति चेत् यत्र अस्माकं ज्ञानं भवति तत्रैव इदानीं बहुषु स्थलेषु एतादृशसुरभिजलं लभ्यते किन्तु इदानीं गङ्गाजलम् अस्ति इति चिन्तयतु गङ्गाजले इदानीं सुरभिगन्धः अस्ति इति चिन्तयतु किन्तु अस्माभिः न अनुभूयते इदानीम् अस्मिन्नेव समये जल, जलस्य पूरतः वयं नास्ति इति कृत्वा वयं न इति कृत्वा तादृश अनुभवः अस्माभिः न ना, नास्ति तर्हि तादृशज्ञानं नास्ति तर्हि तत्र सम्बन्धः न वक्तव्यः किन्तु यदा कोपि पृच्छति इदानीं भवान् गङ्ग गङ्गाजलस्य पुरतः अस्ति इति चिन्तयतु तत्र सुरभिगन्धः आगच्छति तस्य ज्ञानं भवतः आत्मनि उत्पन्नम् इति चिन्तयतु किन्तु भवान् अधीतवान् गन्धः तु केवलं पृथिव्यामेव अस्ति तर्हि कथं वा मया अनुभूयते इति पृष्टे सति तत्र वक्तव्यं स्वसमवायिसंयुक्तत्वसम्बन्धेन सुरभिगन्धः सुरभिगन्धस्य अनुभवः जले भवता कृतं ज्ञानं साधितम् इति तद् यत्र ज्ञानं भवति स्वप्रत्ययं जनयति इत्यत्रैव सम्बन्धः वक्तव्यः Mm -hmm. नो तत्र अनुमानमेव न करणीयं तत्र पार्थिवकणाः सन्ति इति प्रश्नः किमर्थम् उदेति mm -hmm. चक्षुषा न गृह्यते इति एतादृशचिन्तनं वयं तत्र mm -hmm. स्मः साक्षात् गंगा, गंगा तीरे स्मः सुरभिगन्धस्य अनुभवं कुर्वन् सन्त कुर्वन् सन्ति वयं तत्र mm -hmm. किं वक्तव्यं कथं वा केवलं पृथिव्यां विद्यमानगन्धः जले आगतं तत्र सम्बन्धः कः इति चेत् तत्र एतादृशं वक्तव्यं स्वसमवायीसंयुक्ततः अत्र भिन्न उदाहरणमहं वदामि भवान् कस्यचित् कश्चन विवाहः जातः इति चिन्तयतु भवान् तत्र आगतम् अहमपि तत्र आगच्छामि इति चिन्तयतु तर्हि भवान् मां पृच्छति हे भवान् अत्र कुं करोति किं करोति अस्य विवाहस्य अपि च भवतः कः सम्बन्धः इति पृच्छति किल तर्हि मया किमपि वक्तव्यम् एषः मम मित्रं नो चेत् एषः मम बन्धुः इति एतादृशं किमपि सम्बन्धम् उक्त्वा तदर्थम् अत्र मया आगतम् इति वक्तव्यं तादृशम् तत्र गन्धः जले गन्धः नास्ति चेदपि कथं वा अनुभूयते इति प्रश्ने सति एतादृशसम्बन्धेन एव जलं प्रति आगतम् इति वक्तव्यं तर्हि तत्र स्वसमवायसंयुक्तत्वसम्बन्धेन इति वक्तव्यं hmm. तर्हि नैयायिकानां मतानुसारं यत्र कुत्रापि यत्किमपि ज्ञानं भवतु तत्र सम्बन्धस्य केन सम्बन्धेन इति वक्तव्यम् एव सम्बन्धस्य महान् मुख्यत्वमस्ति ते सर्वे अति बुद्धि चालयति चालयन्ति किं कथम् इति सर्वं पृच्छति पृच्छन्ति श्रद्धा किन्तु किन्तु समीचीनचिन्तनमेव तत्र तादृशं नो चेत् यत्किमपि वक्तुं शक्यते यः कोपि साधयितुं शक्यते किमपि सम्बन्धः वक्तव्यः तत्र साधयितुं न शक्यते इदानीं शशशृङ्गम् इति अहं वदामि चेत् शशौ शृङ्गः न भवति तथापि शशशृङ्गम् इति मया पदं प्रयुक्तम् इदानीं शृङ्गः अपि च शशम् अनयोः मध्ये कः सम्बन्धः इति पृष्टे तत्र सम्बन्धः एव न निरूपयितुं शक्यते अतः ते वदन्ति शशशृङ्गमिति मा वदतु शशशृङ्गमिति किमपि पदार्थमेव नास्ति इति तत्र येन केनापि प्रकरणेण शशे शृङ्गः अस्ति इति सम्ब सम्बन्धं सं... कर्तुं न शक्यते एव समीचीनम् अस्तु भवानेव अग्रे पठतु महोदय एवं पृथिव्यनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः जलगतशीतस्पर्श एव स्वसमवायिसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते तेजसः उष्णस्पर्शस्यापि इत्थमेव पृथिवीजलवायुषु भानं समर्थनीयम् अस्तु <gülüyor> अत्रापि पृथिवी अपि च अनिलयोः मध्ये वयं कदाचित् शीतस्पर्शः अनुभव अनुभय अनुभूयमानः चेत् तत्तु अपि स्वाभाविकः नास्ति किन्तु कृत्रिमः कृत्रिमः एव अस्ति इति वयं जानीमः अनिलः इत्युक्ते तेजः तत्र अनिलः इत्युक्ते वायुः क्षम्यतां क्षम्यताम् वायुः पृथिवी वायोः वाययोः वायो मध्ये वयं कदाचित् शीतस्पर्शः अनुभव अनुभवामः चेत् तत् वयं जानीमः इति एतत् अनुभवः स्वाभाविकः नास्ति सामान्यतया वयं न परन्तु महोदय तत्र पृथिवी पृथिव्यां कीदृशस्वाभाविकस्पर्शः अस्ति पृथिव्यां स्पर्शः अस्ति भविष्यति स्पर्शस्य त्रैविध्यम् अस्माभिः अधीतम् उष्णस्पर्शः शीतस्पर्शः अनुष्णाशीतस्पर्शः अनुष्णाशीतः शीतस्पर्शः केवलम् जले लभ्यते उष्णस्पर्शः केवलं तैजसि लभ्यते तै तेजसि लभ्यते अनुष्णाशीतस्पर्शः पृथिव्याम् अपि च वायौ लभ्यते किन्तु इदानीं वदतु इदानीं वदतु हा इति स्वाभाविकतया वयंभवामः परन्तु कदाचित् शीतस्पर्शः अपी वयम् अनुवामः अनुभवामः चेत् तत्तु कृत्रिमः किमर्थमित्युक्ते जलगतशीतस्पर्शः इति वयं जानीमः जले शीतस्पर्शः अस्ति तदेव ती स्वसमवायिसंयुक्तत्वसम्बन्धेन पृथ्वी अनिलयोः मध्ये स्थितः इति प्रति इति वयं ज्ञातुं शक्नुमः इति महोदय तत्र पृथिवी मध्ये इति वदति तद् दोषाय पृथिः अनि अनिलयोः सं, संयोगः भवति चेत् तत्र जना इदानीं पृथिव्यां स्वाभाविकस्पर्शः कः अष्टाशीतस्पर्शः की आम् वायौ कीदृशस्वाभाविकस्पर्शः वायौ इति शीतस्पर्शः खलु नास्ति नास्ति नास्ति स्पर्शः अनुष्णाशीतः एव हा तर्हि तत्र पृथिव्याम् अपि च वायौ अनुष्णाशीतस्पर्शः एव वा वर्तते इदानीं पृथिवीवायोः मध्ये संयोगः जायते चेत् तत्र शीतस्पर्शः भवति वा न भवति परन्तु भवितुमर्हति अपि नास्ति न भवत्येव किमर्थम् इत्युक्ते पृथिव्यां केवलम् अनुष्णाशीतस्पर्शः एव अस्ति स्वाभाविकतया वायः अपि अनुष्ठनाशीतस्पर्शः एव अस्ति स्वाभाविकतया तर्हि तयोः मध्ये संयोगः जायते चेत् केवलम् अनुष्णाशीतस्पर्शः एव भवति अन्यत् किमपि स्पर्शः न भवति किन्तु इदानीं चिन्तनं कस्मिन् विषये चेत् कदाचित् जलपृथिव्योः मध्ये नो चेत् जलवायोः मध्ये इति अस्ति इत्युक्ते पृथिवी अनलयोः कदाचित् पृथिव्यां कदाचित् अनि वायौ कदाचित् शीतस्पर्शः अस्माभिः अनुभूयते तत्र जलपृथिव्योः इति पृथिवी अनलयोः इति सप्तमी द्विवचनं द्योतते किन्तु इदानीं तयोः मध्ये एव संयोगः इति अत्र विवक्षा नास्ति पृथिव्यां कदाचित् शीतस्पर्शः अनुभूयते अपि च नो चेत् वायौ शीतस्पर्शः अनुभूयते तस्य कारणं किम् इति चेत् स्वाभाविकं नास्ति इति वयं जानीमः आम् आम् इदानीं वदतु अस्तु अग्रे जलगत शीतस्पर्शः एव तयोः स्थितः प्रतीयते किं कस्मिन् सम्बन्धेन किं सम्बन्धेन केन सम्बन्धेन तर्हि स्वसमवायुसंयुक्तत्वसम्बन्धेन इति शीतस्पर्शः कुत्र अस्ति शीतस्पर्शः जले एव अस्ति इति वयं जानीमः अतः शीतस्पर्शः अत्र अत्र पृथिव्यां यदि कदाचित् वयम् अनुभ अपि च अनिलयोः वायोः मध्ये अपि अनुभूयते चेत् तत्र कथं शीतस्पर्शः आगच्छति इति इति सत्ये इत, इत्युक्ते तत् शीतस्पर्शः स्वसमवायीसंयुक्तत्वसम्बन्धेन पृथिव्याम् अपि च अनिलय अनि वाययोः मध्ये प्रतीयते तत्र स्वसत्यं जनयति इति अस्ति तर्हि अत्र स्वसमवायीसंयुक्तत्वसम्बन्धेन इति तत्र प्रत्येकपदस्य इदानीं पृथिव्यां शीतस्पर्शः इति इति इति स्वीकरोतु तदेव ज्ञानम् आम् एषा पृथिवी शीतस्पर्शा इति मम ज्ञानमस्ति तर्हि अत्र स्वसमवायीसंयुक्तत्वम् इति तत्र स्व इत्युक्ते इति सर्वं वदति वा स्व इति पृथिव्यां शीतस्पर्शः खलु इति उदाहरणं खलु न अत्र स्व इति पदेन किमुक्तम् आमां परन्तु उदाहरणं किं उदाहरणमस्ति पृथिव्यां शीतस्पर्शः शीतस्पर्श पृथिवी हा अस्तु अस्तु तर्हि स्वम् इति शीतस्पर्शः उत्तमं स्वसमवायिनी पृथिवी तत् संयुक्तं न स्वसमवायी स्वसमवायी जलं तत् संयुक्तं पृथिवी संयुक्तत्वं पृथिव्याम् इति अनेन परम्परासम्बन्धेन पृथिव्यां जले शीतस्पर्शः पृथिव्यां प्राप्तः हा जले इति वदतु तत्र पृथिव्यां शीतस्पर्शः कथं प्राप्तः इति चेत् स्वसमवायीसंयुक्तत्वसम्बन्धेन अत्र स्वम् इति शीतस्पर्शः स्वसमवायी जलं जलेन सह किं संयुक्तम् इति चेत् पृथिवी तर्हि संयुक्तत्वं कुत्र विद्यते पृथिव्यां स्वसमवायीसंयुक्तत्वसम्बन्धेन जले विद्यमानशीतस्पर्शः पृथिव्याम् आगतम। आम् एवमेव उपरि महोदय तेजसः हा एवमेव तेजसः उष्णस्पर्शः अपि इत्थमेव पृथिवीजलवायुषु भानं समर्थनीयं तत्र पृथिव्याम् अपि च जले अपि च वायु वायुवायोः अपि यत् उष्णस्पर्शः अनुभूयते तत् अपि ते तदपि स्वसमवायी संयुक्तत्वसम्बन्धेन तत् तत्र भवति अत्र स्वम् इति उष्णस्पर्शः स्वसमवायी इति पृथिवी अपि च जलम् अपि च वायुः तत् संयुक्त अत्र पृथिवी तेजसी तेजः इति संयुक्तं भवति चेत् Uh, उष्णस्पर्शः स्वसमवायीसंयुक्तत्वसम्बन्धेन पृथिव्याम् अथवा जले अथवा वायु वायुषु आगच्छति उत्तमम् अत्र अग्रिमपरिचेदं भवानेव पठतु <coughs> महोदय अस्तु अग्रे अति स्वच्छे गङ्गाजले प्रतीयमानः नीलिमापि पार्थिवभागानामेव पार्श्वणाभावाम् एव शुक, शुक्लातिरिक् रूपविशेषाणां पृथिवीमात्रवृत्तित्वात् एवं रसे अपि mm. तत्र अत्रापि गङ्गाजले यत् गङ्गाजलम् अति अति स्वच्छः अस्ति चेत् तत्रापि नीलिमा इति वयं द्रष्टुं शक्नुमः तत् नीलिं नीलिमा कथमागच्छति तत्र गङ्गाजले तर्हि वयं दृष्टवन्तः स्वसमवायिसं तत्वसम्बन्धेन तत्र पार्थिव भागाः जले अस्ति गङ्गाजले अस्ति सन्ति ते, तेन एव ते भागा पार्थिवभागान् भागान् भागान एव स्वसमवायीसंयुक्तत्वसम्बन्धेन तस्य निलिमा तत्र गङ्गाजले आगच्छति तदेव अत्र शुक्ल अतिरिक्त रूप विशेषणं विशेषाणां पृथिवीमात्रवृत्तित्वात् इति पृथिवी पृथिव्यां यत् वयं शुक्लातिरिक्तरूपविशेषणं द्रष्टुं शक्नुमः तत्र तदेव अपि स्वसमवायीसमुपसम्बन्धेन पृथिव्याम् आगच्छति अपि च विविधरसाः अपि पृथिव्यां तेन सम्बन्धेन एव अनेन सम्बन्धेन एव आगच्छति इति अहं मन्ये हा महोदय अत्र रूपम् इति गुणः कुत्र कुत्र भवति केषु द्रव्येषु भवति रूपम् इति गुणः पृथिव्यां जले तेजसि उत्तमं तर्हि तेजसि कीदृशरूपं भवति तेजसि भास्करशुक्लरूपं भास्वरशुक्लरूपं भास्वर जले कीदृशशुक्लरूपं जले जले केवलं शुक्लरूपम् इति शुक्लरूपम् अभास्वरशुक्लरूपम् शुक्लरूपस्य एव तत्र द्वैविध्यमन्ति भास्वरशुक्लम् अभास्वरशुक्लम् भास्वरशुक्लरूपं केवलं तेजसि एव भवति अभास्वरशुक्लरूपं जले भवति अपि च पृथिव्यामपि भवति पृथिव्यामपि भवति तर्हि अत्र किमुक्तं शुक्ल अतिरिक्तरूपविशेषाणां पृथिवीमात्रवृत्तित्वात् तर्हि जले केवलम् अभास्वरशुक्लरूपम् एव अस्ति किन्तु इदानीं नीलिमा दृश्यते नीलिमा इत्युक्ते डार्क् कलर् ब्लू न इति चिन्तयतु तत्र नील वर्णम् इति नास्ति डार्क् कलर् नीलिमा इत्युक्ते तत्र केवलं तत्र गङ्गाजलं पश्यामश्चेत् अभास्वरशुक्लरूप केवलम् अभासरशुक्लरूपम् एव दृश्यते इति नास्ति तत्र अन्यत् किमपि डार्क् कलर् अपि दृश्यते किल किन्तु स्वभावतः तत्र नास्ति तर्हि केन आगतम् इति पृष्टे तत्र पृथिव्या Uh, पार्थिवभागानाम् एव mm. uh, तानि रूपाणि तर्हि mm. यानि रूपाणि तत्र पृथिव्यां वर्तते तानि रूपाणि स्वसमवायीसंयुक्तसन्द संयुक्तत्वसम्बन्धेन जले आगतं गङ्गाजले आगतम् इति वक्तव्यम् mm, mm. एवं रसोऽपि इत्यस्मिन् विषये किञ्चित् चिन्तयतु um, uh, पृथिव्यां uh, अद्य जले केवलं मधुररसः अस्ति प्रथमं रसः रसः इति गुणः कुत्र कुत्र केषु द्रव्येषु भवति इति एकवारं वदतु रसः इति अपि पृथिव्याम् अपि च न जले एव अस्ति खलु न न पृथिव्यामपि भवति रसः षड्विधाः आम्लव लवणकटु तिक्त कषाय केवलं पृथिवी अपि च जले अपि च जले, जले कीदृशरसः भवितुमर्हति स्वाभाविकतया मधुररसं केवलं मधुररसं किन्तु इदानीं आ, जले लवणम् अस्माभिः अनुभूयते चेत् तत्र तत्रापि स्वसमवायीसंयुक्तत्वसम्बन्धेन एव जले लवणम् अस्माभिः अनुभूयते नो चेत् कटुः अस्माभिः अनु अनुभूयते इति वक्तव्यम् आवर्तनीयम् इति दत्तम् उत्तमं तर्हि स्वामिमहोदय अग्रे पठति वा सर्वत्र ये अपि द्रव्ये स्वसमवायी संयुक्त संयुक्त संयुक्तत्वरूपपरम्परासम्बन्ध सम्बन्धस्यैव मानानि यानियामकत्वं हा माननियामकत्वं तत्र माननियामकत्वम् एकमेव शब्दस्य एवमेव आग... एवमेव तदेवम् अहं पठामि महोदय एकमेव इति भवता उक्तम् एकमेव न एवमेव एवम् एकम् आमाम् आम् आम् महोदय धन्यवादः एवमेव शब्दस्य आकाशगुणस्य वायौ ज्ञानस्य आत्मगुणस्य शरीरे भानं पूर्वोक्तेन स्वस्वमान स्वसमवायी संयुक्तत्वरूपसम्बन्ध सम्बन्धेनेव संबंद, समर्थनीयम् अस्तु तावत् अत्र किं कुर्मः अहं प्रश्नं पृच्छामि तसे उत्तरं भवान् ददातु अवश्यं महोदय सर्वत्र च वस्तुतः रूपादीनाम् इति अस्ति अत्र रूप आदीनां तत्र आदिपदेन किं किम् किम उक्तम् शब्दस्पर्शरूपरसरस गन्ध स्पर्श तदेव स्पर्शरूपरस आदिपदेन स्पर्शरूपरस उत्तमं महोदय हा तर्हि अनन्तरम् अनाश्रये अपि द्रव्ये तर्हि इदानीं रूपं केषु द्रव्येषु भवति रूपं तत्र पृथिव्याम् अस्ति अपि च जले अस्ति तेजसे अस्ति रूपमं केवलम् एषु त्रिषु द्रव्येषु एव रूपमस्ति गन्धः कुत्र अस्ति गन्धः पृथिवी केवलं पृथिव्येव गन्ध केवलं पृथिव्याम् अस्ति रसः कुत्र अस्ति जलमे जलं जलमेव अस्ति केवलं जले वा नो न जलं रसमस्ति रूपमस्ति न मम प्रश्नः रसः कुत्र केषु द्रव्येषु अस्ति रसः पृथिवी जले केवलं मधुररसमेव अस्ति मधुरसं महोदय कृपया मम प्रश्नस्य एव उत्तरं ददातु इदानीं मधुररसं कुत्र विद्यते इति मया न पृष्टं रसः कुत्र कुत्र विद्यते केषु द्रव्येषु भवति पृथिवी जले वर्तते सत्यम् अपि च स्पर्शः कुत्र कुत्र विद्यते स्पर्षः पृथिवी वर्तते जले वर्तते ते वायौ वर्तते पृथिवी जले तेजः तेजः वर्तते तर्हि चतुर्षु द्रव्येषु आं जल तेज वायौ अपि वायौ स्पर्षः आम। वर्तते आम् हा तर्हि अनाश्रये अपि द्रव्ये इत्युक्ते इदानीं गन्धः तु केवलं पृथिव्यामेव वर्तते किन्तु जले तस्य अनुभवः भवति चेत् जलं गन्धस्य अनाश्रयद्रव्यम् अस्ति आम् महोदय आम, आम गन्धः तु केवलं पृथिव्यामेव वर्तते न तु जले आ, तरही आ, जलं यदा कदापि गन्धस्य आश्रयं न भवति तथापि तस्मिन् जले गन्धः अस्माभिः अनुभूयते अनाश्रये अपि द्रव्ये कथम् अनुभूयते इति चेत् स्वसमवायीसंयुक्त संयुक्तस्वरूपपरम्परासम्बन्धेन एव तस्य भानं मोद भवति इति अवगन्तव्यम् पूर्वमेव अहं दृष्टवन्तः सत्यं तर्हि इदानीं तर्हि इदानीं जले सुरभिगन्धः इति ज्ञानमस्ति चेत् स्वसमवायुसंयुक्तत्वसम्बन्धेन इति अस्ति अत्र स्वम् इत्युक्ते किं समवायु इत्युक्ते किं संयुक्तम् इत्युक्ते किम् इति वदतु जले सुरभिगन्धः इति ज्ञानम् जले अत्र स्वम् इत्युक्ते किं जले सुरभिगन्धः सुरभि सुरभिगन्धः स्वसमवायीसंयुक्तत्वसम्बन्धेन जले भासते आं महोदय तर्हि अत्र स्वम् इत्युक्ते किं स्वम् इत्युक्ते सुरभिगन्धः उत्तमं स्वसमवायी किं स्वसवमवायी स्वसमवायी पृथिवी उत्तमं तर्हि स्वसमवायीसंयुक्तं किं संयुक्तं जलं संयुक्तं जलं बहु उत्तमं तर्हि स्वसमवायीसंयुक्तत्वं कुत्र विद्यते पृथिव्यां वर्तते न जले संयुक्तं जलमस्ति चेत् संयुक्तत्वं कुत्र भवति जले महोदय आम् आम् महोदय हा जलमेव बहु समीचीनं तर्हि स्वसंयुक्तसमवा स्वसंयुक्तं स्वसमवायीसंयुक्तत्वसंयुक्तत्वं जले विद्यते इति कृत्वा सुरभिगन्धः स्वसंयुक् स्वसमवायीसंयुक्तत्वसम्बन्धेन जले विद्यते इति अवगन्तुं शक्यते आम् एवमेव शब्दस्य आकाशगुणस्य वायौ इदानीं वायौ शब्दः आगच्छति इति स्थिति वायौ शब्दः आगच्छति इदानीं शब्दः कुत्र भवति शब्दवत् वायौ अस्ति आकाशे अस्ति न न आकाशस्य लक्षणं किं शब्दगुणगणकम् आकाशं शब्दगुणकम् आकाशम् आम् आम् शब्दगुणकम् आकाशं यथा पृथिवी गंधवती गन्धवती इति तदा शब्दः इति गुणं स्वीकृत्य आकाशस्य लक्षणं कृतं तर्हि शब्दः इति गुणः केवलं आकाशे एव भवति आम् आं महोदय किन्तु इदानीं वायौ अनुभूयते Uh, uh, तर्हि शब्दः केन सम्बन्धेन वायौ अनुभूयते इति चेत् स्व स्वस्वभाव स्वसमान समवायिसंयुक्तत्वसम्बन्धेन वर्तते उत्तमं तर्हि अत्र प्रदर्शयतु स्वम् इत्युक्ते किं समवायु इत्युक्ते किं संयुक्तम् इत्युक्ते किं स्वसमवायिसंयुक्तत्वं कुत्र विद्यते इति प्रदर्शयतु स्वम् अत्र स्वम् शब्दः उत्तमं स्वसमवायी कः स्वसमवायी आकाशम् उत्तमं स्वसमवायीसंयुक्तं किं संयुक्तम् इति वायौ वायुः वायुः स्वसमवायीसंयुक्तत्वं कुत्र भवति तदपि वायु वायुरेव वायौ भवति तर्हि शब्दः स्वसमवायीसंयुक्तत्वसम्बन्धेन वायौ आगतम् अनेन तस्य प्रत्ययं जनितम् आं उत्तमं महोदय ज्ञानं जनितं हा धन्यवादः समीचीनं धन्यवादः धन्यवादः धन्यवादः अस्तु अग्रे अहं पूर्व पाठं वदामि अवदत् हा हा भवतु समीचीनम् अस्तु इदानीं रघुपति आचार्य महोदय भवान् वदतु आम् महोदय तर्हि एतादृशमेव वदतु इदानीं ज्ञानम् इति कस्य गुणः ज्ञानं कुत्र भवितुमर्हति केषु द्रव्येषु भवितुमर्हति केवलम् आत, आत, आत्म, आत्मनि एव केवलम् आत्मनि एव ज्ञानं तु अन्येषु अष्टगुणेषु अष्टद्रव्येषु न भवति केवलम् आत्मनि एव भवति ज्ञानम् इति आत्मस् आत्मनः विशेषगुणः किन्तु शरीरे ज्ञानस्य अनुभवः भवति किल शरीरम् इति कीदृशद्रव्यमस्ति पार्थिवद्रव्यमस्ति उत्तमम् तर्हि पार्थिव पृथिव्यां ज्ञानं यदा कदापि न भवति किन्तु पार्थिवशरीरे ज्ञानम् अस्माभिः अनुभूयते तर्हि कथं वा ज्ञानं शरीरे, शरीरे आगतं तत्र केन सम्बन्धेन इति चेत् वदतु केन सम्बन्धेन इदानीं ज्ञानम् आत्मनि समवयसम्बन्धेन वर्तते यदा मनः संयोगः शरीरे भवति संयोगसम्बन्धेन शरीरे शरीरे भवति अतः इदानीं ज्ञानं शरीरे स्वसमवायी इदानीं स्वसमवायी अस्ति स्वम् इति ज्ञानम् उत्तमं स्वसमवायि स्वसमवायी आत्मा उत्तमं स्वसमवायीसंयुक्तं कः संयुक्तः समवायी संयुक्तम् इदानीं शरीरं तस्मिन् स्वसमवायी सोरियुक्तत्वम् अस्ति शरीरे ज्ञानं शरीरं प्रति आगतम् आगतम् इति अत्र दत्तम् समीचीनम् इति तत्र चित्रपटे अपि एतदेव दत्तमस्ति शीतस्पर्शः जले समवायसम्बन्धेन यत् यः शीतस्पर्शः वर्तते तत् जलं पुनः संयोगसम्बन्धेन घटे आगतम् इत्यतः शीतः घटः इति ज्ञानं भवति एवमेव उष्णजलं तत्र क्ष क्षम्यतां सुरभि सुरभि गन्ध गन्धजलं सुरभिजलम् इति ज्ञानं उष्णवायुः इति ज्ञानं शब्दवायुः इति ज्ञानं ज्ञानशरीरम् इति ज्ञानं सर्वत्र स्वसमवायीसंयुक्तत्वसम्बन्धेन एव भवति इति समर्थित उत्तमम् अग्रे महान् रघुपति आचार्यमहोदय पठतु भवान् पठतु तत्र अन्यः अन्तिमवाक्यमस्ति किल अनया एव रीत्या अनया अनयैव रीत्या कदाचित् गुणादौ जायमानः एकं रूपम् इति गुणप्रत्ययः है समर्थनीयः गुणा अनया रीत्या एव यत् वयं दृष्टवन्तः स्व स्वसमवायिसंयुक्तसम्बन्धे सम्बन्धेन सम्बन्धेन यदि कश्चन गुण गुणः विशिष्टगुणः अन्य अन्य क्षम्यतां प्रथमम् अत्र ज्ञानं किम् इति वदतु तदनन्तरं केन सम्बन्धेन इति यथा शीतः घटः इति ज्ञानं तर्हि इदानीं शीतस्पर्शः तु जले एव बद्धतवती कथं वा घटं प्रति आगतम् इति चेत् स्वसमवायिसंयुक्तत्वसम्बन्धेन आगतम् इति वक् इदानीम् अत्र ज्ञानं कं किम् गुण एकं रूपम् इति रूपं एकं रूपम् इति ज्ञानं गुणप्रत्ययः तद्बुद्धं ज्ञानं न महोदय एकं रूपं इति ज्ञानं गुणप्रत्ययः एकः पटः अस्ति इति चिन्तयतु तस्मिन् पटे इदानीं पीतरूपमेव अस्ति इति चिन्तयतु अहं भवन्तं पृच्छामि कति रूपाणि अस्मिन् पटे सन्ति इति भवान् तस्य उत्तरं ददाति एकं रूपम् अस्ति इति तर्हि इदानीं भवतः पार्श्वे एकं रूपम् इति ज्ञानमस्ति इदानीम् एकम् इति कीदृशपदार्थः अस्ति सप्तपदार्थेषु एकम् इति कीदृशपदार्थः <laughs> एकं सङ्ख्या इति उत्तमं तर्हि कीदृशपदार्थः सङ्ख्या एकनिषमहोदयहोदय विस्मृतवान् सङ्ख्या इति गुणे वर्तते न मनसि इति न वदतु अत्र मनसः किमपि नास्ति चतुर्विंशतिगुणाः सन्ति किल तेषु अन्यतमः अस्ति एकम् इति सङ्ख्या इति एकम् इति सङ्ख्या सङ्ख्या इति गुणः इदानीं सङ्ख्या इति गुणः कुत्र अस्ति अस्मिन् ज्ञाने एकं रूपम् इत्यस्मिन् ज्ञाने एकमिति संज्ञा कुत्र अस्ति सङ्ख्या कुत्र अस्ति न न इदानीं ज्ञानम् अस्तु किञ्चित् किञ्चित् चिन्तयामः इदानीं भवतः पुरतः एकः घटः अस्ति इति चिन्तयतु तर्हि एकः घटः इत्यस्मिन् ज्ञाने एक एकम् इति गुणं कुत्र अस्ति एकम इति एकम इति आ, गटे एव अस्ति घटे घटे हा घटे अस्तु अस्तु एकम् इति गुणं हा घटे केन सम्बन्धेन अस्ति एकम् इति गुण समवयसम्बन्ध समवायसम्बन्धेन सत्यं घटः इति द्रव्यं द्रव्यम् एकम् इति सङ्ख्या गुणः तर्हि गुणः गुणिः समवायसम्बन्धेनैव भवति किल आम् तर्हि एकम् एकः घटः इत्यत्र समवायसम्बन्धेन एकम् इति सङ्ख्या एकः इति सङ्ख्या घटे द्रव्ये वर्तते इति वक्तुं शक्यते इदानीम् एवमेव एकं रूपम् इत्यत्र एकम् इति सङ्ख्या इदानीं कुत्र अस्ति घटे अस्ति न न एकं रूपम् इत्यत्र अस्ति इदानीं हा अवगतं वा इदानीं घटे अपि नास्ति आत्मनि अपि नास्ति एकम् एकम् एकम इति कस्य विशेषणमस्ति रूपस्य विशेषणं किं रूपस्य आमा तत्र बहवः घटाः अस्ति चेदपि प्रत्येकं घटे पीतरूपमेव अस्ति चेत् इदानीम् इदानीमपि तत्र एकमेव रूपमस्ति तर्हि एकम् इति रूपस्य विशेषणं तर्हि एकं कुत्र विद्यते रूपे विद्यते रूपे रूपम् इति कीदृशपदार्थः रूपं रूपं गुणः रूपमिति गुणः एकम् इति सङ्ख्या इति अपि गुणः इदानीं गुणः गुणे केन सम्बन्धेन भवितुमर्हति गुणगुणिनो मध्ये गुण क्षम्यता महोदय मध्ये न न गुणी नास्ति गुणद्वयमपि गुणः गुणगुणिनो गुणगुणिनो मध्ये न न मम प्रश्नः महोदय मुरलीमहोदय गुणः गुणे केन सम्बन्धेन भवति गुणः केन सम्बन्धेन स्वसम्बन्धेन वर्तते वा संयोगः न संयोगः न न एतावत्पर्यन्तं तादृशसम्बन्धः अस्माभिः न पठितः गुणगुणिनोः मध्ये गुणिनि इत्युक्ते द्रव्यं गुणद्रव्यो द्रव्ययोः मध्ये समवायसम्बन्धः भवति द्रव्ययोः मध्ये संयोगसम्बन्धः भवति किन्तु गुणः अन्येषु अन्यस्मिन् अन्येन गुणेन सह केन सम्बन्धेन भवति इति चेत् केनापि सम्बन्धेन न भवितुम् अर्हति इत्युक्ते समवायसम्बन्धेन न भवितुम् अर्हति संयोगसम्बन्धेन न भवितुम् अर्हति आम् महोदय अहं किं वदन्नस्मि इति बुद्धं वा इति आम् आम् आम् आम् आम् महोदय तर्हि एकमिति गुणमस्ति रूपमिति गुणमस्ति तत् तयो सम्बन्धः कः इति प्रश्नः प्रश्नः अपवायसम्बन्धेन न भवितुमर्हति आम् संयोगसम्बन्धेन न भवितुम् अर्हति तादात्म्यसम्बन्धेन भवितुम् अर्हति वागुपतिमहोदय भवान् न महोदय तादात्म्यसम्बन्धेन नास्ति इति अहं चिन्तयामि तादात्म्य हा तादात्म्यसम्बन्धः कुत्र भवितुम् अर्हति <laughs> ्यसम्बन्धेन <laughs> कपालः कपाले तादात्म्यसम्बन्धेन वर्तते भवति तादात्म्यसम्बन्धेन मयि तादात्म्यसम्बन्धेन भवामि इदानीम् एकम् इति भिन्नगुणः अस्ति रूपमिति भिन्नगुणः अस्ति तर्हि तादात्म्यसम्बन्धः अपि न भवितुम् अर्हति संयोगसम्बन्धः अपि न भवितुम् अर्हति समवायसम्बन्धः अपि न भवितुम् अर्हति अत्र किं वक्तव्यम् एकनिमिषम् कुतः प्रशब्दः आगच्छति हा अस्तु तर्हि अत्र किन्तु एकं रूपम् इति प्रतीतिः जायते ज्ञानं जायते एव समर्थनीयम् इति चेत् रीत्या इत्युक्ते स्वसमवायसंयुक्तत्वसम्बन्धेन कदाचित् गुणादौ जायमानः एकं रूपमिति गुणप्रत्ययः समर्थनीयः किन्तु अत्रापि किञ्चित् इतोपि चिन्तनीयम् इदानीम् एकम् इति गुणः तर्हि मेहुल् महोदय भवान् वदतु अत्र स्वसमवायसंयुक्तत्वसम्बन्धः भवितुमर्हति इति वा चिन्तयामः इदानीं पटः इति चिन्तयतु पटे एकं रूपम् अस्ति तर्हि वदतु एकं रूपम् इत्यत्र स्वसमवायीसंयुक्तत्वसम्बन्धेन साधयितुं शक्यते वा इति चिन्तयामः अत्र स्वम् इति किं स्वमिति एकं रूपम् न एकम् इति स्वीकरोतु स्वम् इति एकं वायि कः स्वसमवायी इति रूपं नास्ति स्वसमवायी तत्र एकम् इति गुणः रूपे समवायसम्बन्धेन भवति वा न न भवति तर्हि एकं कुत्र अस्ति स्वसमवायी इति न वक्तुं शक्नुमः तर्हि एकं कुत्र अस्ति इदानीं कुत्र भवितुमर्हति गुणः कुत्र भवति गुणिनि तर्हि एव भवति इदानीं द्रव्यमस्ति पटः तर्हि स्वसमवायी एकम् इति स्वमिति स्वीकुर्मश्चेत् स्वसमवायी कः भवति वा महोदय किमस्ति एकं रूपं पटे अस्ति कुत्र वर्तते स्वसमवायिनी वर्तते इत्युक्ते पटे वर्तते पटरूपयोः मध्ये कः सम्बन्धः तर्हि समवायः एकम् इति गुणः स्वसमवायिनी पटे समवायसम्बन्धेन वर्तते पुनः रूपम् इति गुणः स्वसमवायिनी पटे समवायसम्बन्धेन वर्तते तर्हि इदानीम् एकं रूपं प्रति कथं समर्थनीयम् इति चेत् स्वसमवायिसमवायित्वसम्बन्धेन अत्र संयुक्तत्वसम्बन्धे तत्र अत्र संयोगः नास्ति किल द्रव्ययोः मध्ये एव संयोगः भवति एकम् अपि च पटः अनयोः मध्ये समवायसम्बन्धः अस्ति पुनः रूपमिति गुणः अपि च पटः अनयोः मध्ये समवायसम्बन्धः अस्ति तर्हि स्वसमवायीसमवायित्वसम्बन्धेन स्वसमवायि समवायित्व स्वसमवायीसमवायित्वसम्बन्धेन एकम् इति सङ्ख्या रूपे शक्यते बुद्धं वायि समवायित्वसमवायि समवायित्वसम्बन्धेन यत्र संयोगः वर्तते तत्र संयुक्तत्वम् इति वक्तुं शक्यते भवतु तत्र इतो इतोपि अग्रे आयास्यति अस्मिन्नेव विषये किन्तु केवलं अत्र किमर्थं चिन्तनम् इति मया मया समर्थितं त तत्र त यथा गन्धः जले स्वसमवाये संयुक्तत्वसम्बन्धेन भवति तदा एकम् इति गुणः रूपम् इति गुणे तादृशं समर्थनीयं तत्र साक्षात् गुणं गुणेन भवति गुणः गुणे यदा कदापि न भवति तत्र सहयोगसम्बन्धेन वा तादात्म्यसम्बन्धेन वा समवायसम्बन्धेन वा इति कृत्वा एतादृशपरम्परासम्बन्धः तत्रापि कल्पनीयः तस्य अवसरः अस्ति आवश्यकता अस्ति इति अवगच्छति चेत् पर्याप्तम् इदानीं हा समीयम् अस्तु तर्हि अग्रे इतोपि एकः परिच्छेदः अस्माभिः पठनीयः अस्ति समयः किञ्चिदस्ति तर्हि मेहुल् महोदय भवानेव पठतु सूक्तिलन्तिका इति अस्ति सूक्तिलन्तिका गुणेपि जायमानः गुणप्रत्ययः समर्थनीयः तदेव अत्र वयं दृष्टवन्तः गुणे हा गुणे अपि जायमानः गुणप्रत्ययः एकं गुणम् एकं रूपम् इत्यत्र रूपम् इति गुणे एकम् इति गुणस्य प्रत्ययः ज्ञानं भवति एकं रूपम् इति न तु समर्थनीयम् आं तत् कथम् इति तत् कथम् इत्यस्मै विषयम् इदानीं प्रवर्तमानमस्ति पठतु महोदय अग्रे प्रथमपरिच्छेदमेव पठतु आं तथा हि अस्ति समवायिकारणम् असमवायिकरणं दोषः अस्ति समवायिकारणम् असमवायिकारणं निमित्तकारणमिति कश्चित् कारणविभागः वक्ष्यमाणः उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् कारणं यथा घटः कपाले समवाये न उत्पद्यते अवयवावय अवयव अवयविनोः समवायात् रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात् क्रिया कन्दुके समवायेन उत्पद्यते क्रियाक्रियावतोः समवायात् एवमितरि एवमितरेषां जन्यद्रव्यगुणकर्मणां बोध्यम् तावदेव अस्तु अत्र निमित्तकारणम् इति कश्चित् कारणविभागः तत् तस्य विभागाः सन्ति समवायिकारणम् अपि च असमवायिकारणम् इति निमित्तकारणद्वयम् अस्ति इति अहं मन्ये न नैविध्यमस्ति त्रैविध्यमस्ति हा त्रीणि कारणानि निमित्तकारणमेकम् असमवायिकारणं द्वितीयम् अपि च समवायिकारणम् इति तृतीयम् अत्र ते कथम् इति अत्र दत्तमस्ति उत्पद्यमानं कार्यं यत् समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणम् अत्र उदाहरणं दत्तमस्ति यथा घटः कपाले समवायेन उत्पद्यते तत्र घटकपालयोः मध्ये समवायसम्बन्धः अस्ति तत् समवायसम्बन्धेन एव कार्यम् उत्पद्यति उत्पद्यते इति वयं जानीमः अतः कपालः इति घटस्य समवायीकारणं भवति उत्तमं अग्रे अन्यत् अपि उदाहरणं वयं जानीमः अवयव अवयविनोः मध्ये अपि समवायसम्बन्धः अस्ति अन्य उदाहरणं नास्ति घटकपालस्य एव उदाहरणम् अत्र किमर्थं घटकपालयोः मध्ये समवायसम्बन्धः ओ हा तत्र कपालः इति अवयवः घटः इति अवयवि यतः तस्य तयोः मध्ये समवायसम्बन्धः अस्ति इति अग्रे अपि रूपं घटे समवायेन उत्पद्यते तत्र गुणगुणिनोः मध्ये अपि समवाय एव सम्बन्धः भवति इति वयं जानीमः तस्य उदाहरणं अत्र महोदय रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात् इत्यस्मिन् वाक्ये कार्यं किं कारणं किम् कार्यम् इति रूपं न कार्यम् इति घटम् कार्यम् इति अहं मन्ये किञ्चित् वर्ण यद् रूपमस्ति तदेव कार्यम् हा घटे विद्यमानरूपं कार्यं कारणं कार्यं कारणमिति समवायसम्बन्धः न सम्बन्धः कः इति मया न पृष्टं कारणं किम् कारणं समवायीकारणं न न अत्र इदानीं घटे नीलरूपम् अस्ति तर्हि नीलरूपम् इति कार्यं तस्य कारणं नीलरूपस्य कारणं किम् नीलरूप एव नीलरूपं कथं वा स्वस्य कारणं भवति घटे विद्यमान् इदानीं समवायीकारणं नीलरूपस्य समवायिकारणं किम् इति प्रश्नः नीलरूपस्य समवायिकारणम् रूपं कथमागच्छति तथा निरूपं वयं समवायेन घटे घटमेव महोदय हा किमर्थं घटः रूपं घटे वर्तते केन सम्बन्धेन समवायसम्बन्धेन वर्तते तदेव अत्र दत्तं गुणगुणिनोः समवा इत्युक्ते रूपम् घटे विद्यमानरूपस्य समवायीकारणं भवति घटः ओ अस्तु अस्तु अग्रे महोदय आमाम् अत्र अवयव अवयविनोः इति उदाहरणं घटः कपालः तदेव अत्र अस्ति गुणः गुणिनो गुणगुणिनोः इति उदाहरणं रूपम् अपि घटः तस्य रूपः इति गुणः गुणिनः इति घटम् अत्र अत्र कीदृशः भ्रमः भवितुम् अर्हति इति चेत् इदानीं कपाले विद्यमाननीलरूपमेव घटे विद्यमानस्य नीलरूपस्य कारणम् इति भवद्भिः चिन्तयितुं शक्यते आम् आम् आम् तद् वस्तुतः तदेव अस्ति तथापि समवायीकारणं किम् इति चेत् घटः एव घटे विद्यमानरूपस्य समवायीकारणं किम् इति चेत् घटः किमर्थं गुणगुणिनोः मध्ये समवायसम्बन्धः एव भवति इति कृ इदानीं तृतीयवाक्यं पठतु क्रि हा तृतीयवाक्यम् अपि तदेव अस्ति क्रिया क्रियावतोः मध्ये अपि समवायसम्बन्धः अस्ति तस्य उदाहरणमस्ति क्रिया कन्दुके समवायेन उत्पद्यते अत्रापि क्रिया तर्हि अत्र कार्यं किं कारणं किं कार्यम् इति कन्दुकेन यत् क्रिया भवति तदेव कार्यं कारणं तु कन्दुकं हा कन्दुकस्य क्रिया कन्दुके या क्रिया विद्यते सा एव कार्यमत्रियाः समवायिका अस्ति महा भवितुम् अर्हति तत्र स्वतन्त्रतया कन्दुके क्रिया यदा कदापि न जायते अहं क्षिपादि चेदेव तस्मिन् जायते तथापि क्रिया hmm. कन्दुके hmm. hmm. इति चेत् कन्दुकमेव क्रिया क्रियावते क्रियावती समवायसम्बन्धेन भवति इत्यतः क्रियायाः समवायकारणं कन्दुकम् अस्ति इति मनसि भवेत् hmm. उदाहरणानि अस्माभिः दृष्टानि समवायीकारणस्य oh. कपालः घटस्य समवायीकारणम् अत्र हेतुः कः अवयव अवयवेनोः समवायात् hmm. रूपं घटः रूपस्य कारणं समवायीकारणं गुणगुणिनोः समवायात् कन्दुकं क्रियायाः कारणं क्रियाक्रियावतोः समवायात् इति अवगन्तव्यम् यद्यपि अहमेव तत्र कन्दुकं क्षिपामि अहं समवायीकारणं न भवामि किन्तु अहं निमित्तकारणं भवामि निमित्तकारण यद्यपि कपाले विद्यमाननीलरूपम् एवलरूपस्य तथापि कपाले विद्यमाननीलरूपं घटे विद्यमाननीलरूपं प्रति समवायिकारणं न भवति hmm. तद् असमवायीकारणं भवति समवायीकारणं तद किम् इति चेत् Uh, uh, तत् कथम् असमवायिकारणम् इत्युक्ते किं तत् तत् अग्रे आयास्ति अहम् एतद् वदामि किमर्थम् इत्युक्ते भवतः मनसि एतादृशचिन्तनं भवितुमर्हति ओ तत्र कपाले नीलरूपं नास्ति चेत् कथं वा घटे नीलरूपं नीलरूपस्य नील उत्पन्नं भवति तर्हि कपाले विद्यमानरूपमेव घटस्य कारणं भवति सत्यं किन्तु समवायिकारणं नास्ति ओ तर्हि कीदृशकारणम् इति चेत् असमवायकारणम् असमवायकारणम् इत्युक्ते किम् इति एतावत्पर्यन्तम् अस्माभिः न पठितम् आम् एवमेव कन्दुके क्रिया जातं किन्तु स्वेन न जातम् इत्युक्ते स्वतन्त्रतया कन्दुकं यथा कुत्रापि न गच्छति अचेतनत्वात् अहमेव कन्दुकं क्षिपामि चेत् तस्मिन् क्रिया केन उत्पादितम् अहमेव उत्पादितं तर्हि कन्दुकीयविद्यमानक्रियायाः कारणं कः इति चेत् अहमेव किन्तु अहं कीदृशकारणम् इति चेत् समवायीकारणं नास्ति निमित्तकारणं निमित्तकारणम् इत्युक्ते किम् अस्माभिः एतावत्पर्यन्तम् अधीतम् किन्तु तत्र प्रत्येकम् उत्पादने समवायकारणं भवति असमवायीकारणं भवति निमित्तकारणमपि भवति कारणत्रयं सर्वत्र भवति समीचीनं किन्तु समवायिकारणम् इत्युक्ते किम् इति चेत् घटः एव कपः तत्र घटस्य समवायेकारणं कपालः घटे विद्यमानरूपस्य समवाये कारणं घटः कन्दुके विद्यमानक्रियायाः समवाये कारणं कन्दुकम् इति इति अवबोधः अस्ति चेत् पर्याप्तम् एतावत्पर्यम् अस्तु अस्तु अस्तु समीचीनं समयः जातः अत्र स्थगयामः सर्वेभ्यो नमस्कारः महोदय महोदय हा तत्र एकं सन्देहमस्ति समवायिकारणम् अहं बोध्यम् असमवायि निमित्तकारणं वा अति कन्दुकस्य क्षेपणम् अहं करोमि तस्मात् निमित्तकारणम् असमवायिकारणस्य उदाहरणं कुत्र दत्तमस्ति तत्र नास्ति एतावत्पर्यन्तं न ना दत्तं तदेव मया उक्तम् असमवायीकारणम् इत्युक्ते किं तस्य लक्षणम् एतावत्पर्यन्तम् अस्माभिः न पठितं न पठितम् तथापि तत्र समवायीकारणं घटे विद्यमानरूपं प्रति समवायिकारणं घटः एव भवति न तु कपाले विद्यमानरूपम् इति बोधनार्थं तर्हि घटे कपाले नीलरूपं नास्ति चेत् कथं वा घटे नीलरूपं जायते तर्हि कपाले विद्यमानरूपमपि कारणं भवेत् सत्यं कारणमस्ति किन्तु समवायिकारणं नास्ति तर्हि कीदृशकारणम् इति चेत् असमवायिकारणम् असमवायिकारणम् इत्युक्ते किम् एतावत्पर्यन्तम् अस्माभिः न अस्मात् अस्मिन् पाठे एव आगच्छति निमित्तकारणं तत्र स्य क्षेपणम् अहं करोमि तदेव कुला कुलालयस्य कारणमेव घटस्य उत्पादनं हा इति अस्ति तर्हि कुलालः निमित्तकारणं भवति निमित्तकारणं भवति हा कुलालः निमित्तकारणं भवति तर्हि प्रत्येकं कार्यस्य तत्र समवायीकारणम् इति भिन्नकारणमस्ति असमवायीकारणानि इति भिन्नकारणानि भवितुमर्हति निमित्तकारणानि इति भिन्नभिन्नकारणानि भवितुमर्हति आम् आम् महोदय किन्तु समवायिकारणम् इत्युक्ते किम् इति मनसि भवेत् ओ तदेव अहं अहं पठिष्यामि हा इदानीं अस्मिन् विषये एव पठनं जातमस्ति जातं जायमानमस्ति हा आम् आं महोदय धन्यवादः धन्यवादः समीचीनं धन्यवादः